श्रीमन् श्रीमन्महाभारतम् आदिपर्वणि सम्भवपर्वणि अस्त्रदर्शने षट्त्रिंशदधिकशतमो अध्यायः वैशम्पायन उवाच ततः स्रस्तोत्तरपटः सप्रस्वेदः स वेपतुः विवेशाधिरथोरङ्गम् यष्टिप्राणोह्वयन्निव तमालोक्यधनुस्त्यक्त्वा पितृगौरवयन्त्रितः कर्णोऽभिषेकार्द्रशिरा शिरसा समवन्दता ततः पादाववच्छाद्य पटान्तेन स सम्भ्रमः पुत्रेति परिपूर्णार्थमब्रवीद् रथसारथिः परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः तम् दृष्ट्वा सूतपुत्रोऽयमिति सञ्चिन्त्य पाण्डवः भीमसेनस्तदा वाक्यमब्रवीत् प्रहसन्निव न त्वमर्हसि पार्थेन सूतपुत्र रणेऽवधम् कुलस्य सदृशस्तूर्णम् प्रतोदो गृह्यताम् द्वया अङ्गराज्यम् च नार्हस्त्वमुपभोक्तुम् न राधम श्वा हुताशसमीपस्थम् पुरोडाशमिवाध्वरे एवमुक्तस्ततकर्ण कर्णः प्रस्फुरिता गगनस्थं प्रस्फुरिताधरः दिवाकरमुदैक्षत ततो दुर्योधनः कोपादुत्पपात महाबलः भ्रातृपद्मवनात् तस्मान्मदोत्कट इव द्विपः सोऽब्रवीत् भीमकर्माणम् भीमसेनमवस्थितम् वृकोदरन युक्तम् ते वचनम् वक्तुमीदृशम् क्षत्रियाणाम् बलम् ज्येष्ठम् योद्धव्यम् क्षत्रबन्धुना शूराणाम् च नदीनाम् च दुर्विधाः प्रभवाः किल सलिलादुत्थितो वह्निर्येन व्याप्तम् चराचरम् दधीचस्यास्थितो वज्रम् कृतम् दानवसूदनम् आग्नेय कृतिका पुत्रो रौद्रो गांगेय सर्व गांगेये भगवान्दु्यम गुह ये जाता चते ब्राह्मणस्ते चे श्रुता विश्वामृत प्राप्ता ब्रह्मय आचार्यकशाज्जा द्रोण शस्त्रता गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः भवताम् च यथा जन्म तदप्यागमितम् मया सकुण्डलम् सकवचम् सर्वलक्षणलक्षितम् कथमादित्यसदृशम् मृगी व्याघ्रम् जनिष्यति कथमादित्य सङ्काशम् सूतोम् जनयिष्यति एवम् क्षत्रगुणैर्युक्तम् शूरम् शूरं शोभनम्